अधाष्टचत्वारिंशः सर्गः भर्तारम् निहतम् दृष्ट्वा लक्ष्मणम् च महाबलम् विललापभृशम् सीता करुणम् शोककर्षिता ऊचुर्लाक्षणिका ये माम् पुत्रिण्यभिधवेति सर्वे हते रामे ज्ञानिनो नृतवादिनः यज्वनो महिषीम् ये मामूचः पत्नीम् च सत्त्रिणः तेद्य सर्वे हते रामे ज्ञानिनो नृतवादिनः वीरपार्थिवपत्नीनाम् ये विदुर्भर्तृपूजिता वी तेऽद्य सर्वे हते रामे ज्ञानिनो नृतवादिनः ऊचः संश्रवणे येमाम् द्विजाः कार्तान्तिकाशुभा तेऽद्य सर्वे हते रामे ज्ञानिनो नृतवादिनः इमानि खलु पद्मानि पादयोर्वैकुलस्त्रियः आधिराज्येऽभिषिच्यन्ते नरेन्द्रैः पतिभिः सह वैधव्यम् यान्ति यैर्नार्यो लक्षणैर्भाग्यदुर्लभाः नात्मनस्तानि पश्यामि पश्यन्ती हतलक्षणा सत्यनामानि पद्मानि स्त्रीणामुक्तानि लक्षणैः तान्यद्व्यनिहते रामे वितथानि भवन्ति केशा केशाः समानीला भ्रुवौ चासंहते मम वृत्ते चारोमके जङ्घे विरला मम शङ्खे नेत्रे करौ पादौ गुल्फा गुरु समौचितौ अनुवृत्तनखाः स्निग्धाः समाश्चाङ्गुलयो मम स्तनौ चाविरलौ पीनौ मामकौ मग्नचूचुकौ मग्ना चोत्सेधनीनाभिः पार्श्वो रस्कम् कन्यालाक्षणिकाविदुः आधिराज्ये मे ब्राह्मणैः पतिना सह कृतान्तकुशलैरुक्तम् तत्सर्वम् वितथीकृतम् शोधयित्वा जनस्थानम् प्रवृत्तिमुपलभ्य च क्लीर्त्वा सागरमक्षोभ्यम् भ्रातरौ गोष्पदेहतौ नरु ब्रह्मशिरश्चैव राघवौ प्रत्यपद्यत अदृश्यमाने नरेणे मायया वासवोपमौ मम नाथावनाथाय निहतौ रामलक्ष्मणौ न हि दृष्टिपथम् राघवस्य रणे रिपुः जीवन्प्रतिनिवर्तेत यद्यपि नकालस्याति न कालस्यातिभारोऽस्ति कृतान्तश्च सुदुर्जयः यत्र रामः सह भ्रात्रा न शोचामि तथा रामम् लक्ष्मणम् महारथम् नात्मानम् जननीम् चापि यथा श्वश्रूम् तपस्विनी सा तु चिन्तयते नित्यम् समाप्तव्रतमागतम् कदा द्रक्ष्यामि सीताम् च लक्ष्मणम् च स राघवम् परिदेवयमानाम् मा विषादम् कृता देवि भर्ता तव जीवति कारणानि च वक्ष्यामि महान्ति सदृशानि च यथेमौ जीवतो देवि भ्रातरौ रामलक्ष्मणौ न हि कोपपरीतानि हर्षपर्युत्सुकानि च भवन्त युधियोधानाम् मुखानि निहते पतौ इदम् विमानं वैदेहि पुष्पकम् नामनामतः दिव्यम् त्वाम् धारयेन्नेदम् यद्येतौ गतजीवितौ हतवीरप्रधाना हि गतोत्साहानिरुद्यमा सेनाभ्रमति सङ्ख्येषु हतकर्णे वनौर्जले इयम् पुनरसम्भ्रान्ता निरुद्विज्ञातपस्विनी सेना, सेना रक्षति काकुत्स्थौ मया प्रीत्या निवेदितौ सा त्वम् भवसु विश्रब्धा अहतौ पश्य काकुत्स्थौ स्नेहादेतद्ब्रवीमि ते अनृतम् नोक्त पूर्वम् मे न च प्रविष्टासि मनो मम नेमौ शक्यौ रणे जेतुम् सेन्द्रैरपि सुरासुरैः तादृशम् दर्शनम् दृष्ट्वा मया चोदीरितम् तव इदम् तु सुमहच्चित्रम् शरैः पश्यस्व विसञ्ज्ञ उपतितावेतौ नैव लक्ष्मीर्विमुञ्चति प्रायेण गतसत्त्वानाम् पुरुषाणाम् गतायुषाम् दृश्यमानेषु वक्त्रेषु परम् भवति वै कृतम् त्यजशोकम् च दुःखम् च मोहम् च जनकात्मजे रामलक्ष्मणयोरर्थेनाद्यशक्यमजीवितुम् श्रुत्वा तु वचनम् तस्याः सीतासुरसुतोपमा कृताञ्जलिर्वाचे मामेवमस्त्विति मैथिली विमानम् पुष्पकम् तत्तु सन्निवर्त्य मनोजवम् दीना त्रिजटयासीता लङ्कामेव प्रवेशिता ततस्त्रिजटया सार्धम् पुष्पकादवरुह्यसा अशोकवनिकामेव राक्षसीभिः प्रवेशिता प्रविश्यसीता बहुवृक्षखण्डाम् ताम् राक्षसेन्द्रस्य विहारभूमिम् सम्प्रेक्ष्य सञ्चिन्त्य च राजपुत्रौ परम् विषादम् समुपाजगाम इत्यार्षे श्रीमद् आदिकाव्ये युद्धकाण्डे अष्टचत्वारिंशः सर्गः